विजयप्राप्तिमन्त्र ऋजिते घनम् ऋजिते परिपर्यरुजिदरुजिते परिवृङ्गिवृन्दि पर्यरुजिदरुजिते परिवृङ्गि परिवृन्दिवृन्दि परिपरिवृङ्गि नो नो वृङ्गि परिपरिवृन्धिनः वृन्धि नो नो वृन्धि वृन्धि नस्मा स्म नो वृन्धि वृन्धि नो स्म नस्मा स्म नो नोस्म भवतु भवत्वस्म नो नो नो भवत्वस्म भवतु नः भवतु नो नो भवतु भवतु नस्तनुस्तनुर्नो भवतु भवतु नस्तनुः नस्तनुस्तनूर्नो नस्तनुः तनुरिति तनुः सोम अद्यदि सोमः अधिब्रवीदु ब्रवीत्वधि सोम सोम अधिब्रवीतु अधिब्रवीदु ब्रवीत्वद्यब्रवीदो नो नो ब्रवीत्वद्यधिब्रवीतु नः ब्रवीदु नो नो ब्रवीदु ब्रवीदो नो दिदिरदिर्नो ब्रवीदो ब्रवीदो नो दिदिः नो दिरदिर्नो नो दिदि शर्म शर्म दिर्नो नो दिधि शर्मा अदेते शर्म शर्म दिदिरदेते शर्म यच्छतु यच्छतु शर्म दिधिरदेते शर्म यच्छतु शर्म यच्छतु यच्छतु शर्म शर्म यच्छदो यच्छत्वेति यच्छदो आ जङ्घन्धि जङ्घन्ध्या जङ्घन्धि सानु सु जङ्गन्ध्या जङ्गन्धि सानु जङ्गन्धि सानु सानु जङ्गन्धि जङ्गन्धिसान्वेषामेषागं सानु जङ्गन्धि जङ्गन्धि सान्वेषाम् सान्वेषामेषागं सानु सान्वेषान् जघनान् जघनागुं येषा गुं सानुसान्वेषां जघनान् येषां जघनान् जघनागुं येषामेषां उपोप जघनागुं येषामेषां जघनागुम् उप जघनागम् उपोप जघनान् जघनागम् उपजिघ्नदे जिघ्नद उप जघनान् जघनागम् उप जिघ्नदे उपजिघ्नदे जिघ्नद उपोपजिघ्नदे जिघ्नद इति जिघ्नदे अश्वा जनि प्रचेतस प्रचेतसोऽ जन्यश्वा जनि प्रचेतसोऽश्व नश्वान् प्रचेतसोश्वा जन्यश्वा जनि प्रचेतसोऽश्वान प्रचेतसोऽश्वानश्वान् प्रचेतस्य समत्सु समस्वश्वान् प्रचेतस प्रचेत समत्सु प्रचेतस इति प्रचेतसः समत्सु समस्वश्वानश्वान् समत्सु चोदयचोदय समत्स्वश्वानश्वान्समत्सु चोदय समत्सु चोदयचोदय समत्सु समत्सु चोदया समत्स्विदि समदत्सु चोदयेदि चोदय वाक्यम् रुचिदे परिवृन्धि नोष्मा भवतु नस्तनुः सोम अधिब्रवीद् नोदिति शर्म यच्छदु आजङ्गन्धि सान्वेषान् जघनागम् उपजिघ्नदे प्रचेत सोष्वान् समत्सु चोदय